श्रीहर्ये नमः अथ षोटसोऽध्यायः उद्धव उवाच त्वं ब्रह्मपरमं साक्षात् अनाद्यन्तम् अपावृतं सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः उपासते भगवन् यथा तथ्येन ब्राह्मणाः येशु येषु च भावेषु भक्त्या त्वां परमर्षयः उपासीना प्रपद्यन्ते संसिद्धिं तत्त्वदस्व मे गूटश्चरसि भूतात्मा भूतानां भूतभावनः न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते याकाश्च भूमौ दिविवैरसायां विभूतयो दिशु महाभिभूते तामह्यम् आख्याख्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् श्रीभगवानुवाच एवमेतत् दहं पृष्ठः प्रश्नं प्रश्नविधाम्बर युयुत्सुना विनसने सपत्नै अर्जुनेन वै ज्ञात्वा ज्ञातिवतं गर्ह्यम् अधर्मं राज्यहेतुकं ततो निवृत्तो हन्ताहं हतोयमिति लौकिकः स तथा पुरुषव्याक्रो युक्त्या मे प्रतिबोधितः अभ्यभाषत मामेवं रणमूर्धनि अहमात्मोदीषा भूता अहम सर्वाणी भूता स्थितुद्वाप्य अहं कदर्गतिमतां कालकलयतामहं गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः गुणिनामप्यहं शूद्रं महतां च महानहं सूक्ष्माणाम् अप्यहं जीवो दुर्जयानामहं मनः हिरण्यगर्भो वेदानाम् मन्त्राणां प्रणवस्त्रिव्रत् अक्षराणां मकारोऽस्मे पदा निश्चन्दसामहम् इन्द्रोऽहं सर्वदेवानां वसुनामस्मि हव्यट् आदित्यानामहं विष्णो रुद्राणां नीललोहितः ्रह्मवर्षीणां भृगुरहं राजर्षीणामहं मनुः देवर्षीणां नारदोऽहम् हेदान्यस्मि धेनुषो सिद्धेश्वराणां कपिल सुपर्णोऽहं पधत्रीणां प्रजापतीनां दक्षोऽहं पितॄणाम् अहमर्यमां विद्युद्धव दैत्यानाम् प्रह्लादम् असुरेश्वरं सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसां रक्षसाम् ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुं तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् उच्चैश्रवास्तु रङ्गाणां धातूनाम् अस्मि काञ्चनम् यमः संयमतां चाहं सर्पाणाम् अस्मि वासुकिः नागेन्द्राणाम् अनन्तोऽहं मृगेन्दशृङ्गितं श्रुतॄणाम् आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो नघ तीर्थानां श्रोतसां गङ्गा समुद्रसरसामहम् आयुधानां धनुरहं त्रिपुरग्नो धनुष्मतां धिष्ण्यानाम् अस्न्यहं मेरोर्गहानानां हिमालयः वनस्पतीनाम् अश्वत्थ औषधीनामहं यवहा पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः स्कन्धोऽहं सर्वसेनान्याम् अग्रण्यां भगवानजहा यज्ञानां ब्रह्म यज्ञोऽहं व्रथानाम् अविहिंसनं वायवज्ञर्काम्भुभागात्मा सुशीनाम् अप्यहं शुचिः योगानाम् आत्मसम्बोधो मन्त्रोऽस्मि विजिगीषताम् आन्वीषिकी कौशलानाम् विकल्पख्यातिवादिनां स्त्रीणां तु सतरूपाहंसा स्वयं भुवो मनुः नारायणो मुनीनां च कुमारो ब्रह्मचारिणां धर्माणामस्मि संन्यासक्षेमाणाम् अबहिर्मतिः गुह्यानां सुनृतं मौनम् मिथुनानामजस्त्वहं संवत्सरों यनिमिषां ऋथूनां मधुमाधवौ मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजितम् अहं युगानां च कृतं धीराणां देवलोसितः द्वैपायनोऽस्मि व्यासानां कवीनां काव्य वासुदेवो भगवतां त्वं तु भागवतेष्वहं किं पुरुषाणां हनुमान् विद्यात्राणां सुदर्शणः रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसां कुशोऽस्मि धर्भजातीनां गव्यमाजं कविश्वहं स्वयसायिनाम् अहं किवानां चलग्रहः स्थितिक्षास्मि स्तिक्षूणां सत्त्वं सत्त्ववतामहम् ओजः सखो बलवतां कर्माहं विद्धि सात्वतां सात्वतां नवमूर्तीनाम् पर विश्वा वसुः भूतराणामहं स्थैर्यं गन्धमात्रमहं भुवः अपां रसश्च परम ते विभावसुः प्रभा सूर्येन्दुताराणां शब्दोऽकं नभसः परः ब्रह्मण्यानां बलिरहं वीराणाम् अहमर्जुनः भूतानां स्थितिरोत्पत्तिरहं वै प्रतिसङ्क्रमः गत्युक्त्युस्सर्गो बाधानम् आनन्दस्पर्शलक्षणम् आस्वादश्रुत्यवघ्रणम् अहं सर्वेन्द्रियेन्द्रियं पृथिवी वायुराकाश महान् विकारः रजःसत्त्वं तमः परम् अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः महेश्वरेण जीवेन गुणेन गुणिना विना सर्वात्मनापि सर्वेण नभावो विद्यते क्वचित् सङ्ख्यानं परमाणूनां कालेन क्रियते मया नततामे तथा मे विभूतीनां सृजदोण्डानिकोटिशः तेजश्रीकीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः वीर्यं तितिशाविज्ञानं यत्र यत्र समीसः एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः मनोविकारायेवैते यथा वाचा वितीयते वाचं यच्च मनो यच्च प्राणान् यच्चेन्द्रियाणि च आत्मानम् आत्मना यच्छ न भूयकल्पसे ध्वने यो वै वाङ्मनसि संयघशं यच्छन् दियायतिः तस्य व्रतं तपोधानं श्रवत्याम् अघटाम्भुवत् तस्मात् मनोवचः प्राणान् निये चेन्मत्परायणः मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते इति श्रीमद्भागवते महापुराणे एकादशस्कन्धे षोडशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा, गोविन्द सदगुरुनाद महराज की जय